सुनवा जातवेदसेषु नवभसोमपराति यतो निदहाति वेदः तनः परिषदति दुर्गा निविश्वा वेबसिन्धुन्धुरितात्यग्निः ताभग्निवर्णान्तपसाज्ज्वलन्तीम् ता वैरोचनीम् कर्मफलेषु जुष्टाः दुर्गाम् देवीगम् शरणमहम् प्रपद्ये सुतरसितरसेनवः अग्ने त्वम् पार जानव्यो अस्मान् स्वस्तिभिरति दुर्गानि विस्मा पूश्च पृथ्वी बहुला न उर्वीभवातोकायतनजायषयोः विश्वानिनो दुर्गहा जातवेदः सिन्धुम् न ना वा दुरितातिपर्षी अग्ने अत्रिपन्मनसागृणानो अस्माकम् बोध्यपितातनूनाम् पृतनाजितकुम्सहमानमुग्रमग्निकुम् हुबेव परमात्सधस्थात् स नः स्परिषदति दुर्गाणि विश्वाक्षामद्देवो अतिदुरितात्यग्निः प्रतोषिकमीड्य अद्भरेषु सनाच्च होतानम् यश्च सत्सी स्वाम् च आग्ने तनुबम् विप्रयस्वास्मभ्यम् च सौभगमायजस्व गोभिर्जुष्टमयुजो निषिक्तन्तवे एन्द्रविष्णोरनुसञ्चरेम नाकस्य पृष्ठमभिसंवसानो वैष्णवील्लोक इह मारजन्ताम् कात्याजनाय विद्महे कन्यकुमारि धीमहि तन्नो दुर्ग्यः प्रचोदयात् Shantish Shantish Shantih